ददामित्येव ब्रूषादूचेना महुत्सदा वशाम् ब्रह्मभ्यो याचद्भ्यस्तत्प्रजापदपद्यवत् प्रजयासविक्रीणीले पशुभिश्चोपदस्यति या षेदेभ्यो याचद्भ्यो देवानाम् कान्नदित्सति कूरयाश्च संशीर्यन्ते श्रोणयाः काटवर्दति पण्डयाः दृश्यन्ते गृहाः कालया दीयते स्वाम् विलोहितोऽधिष्ठानाच्छर्को विन्दतिम् गोपतिम् तदाहवशायाः संविद्यम् दुरध्राह्योच्यतेः पदोरस्याधिष्ठाना दुर्गेन्दुर्नाम विन्दति अरामरात् संशील्यन्ते यामुखे नोपजिघ्रति यो अस्याः कर्णा वास्कुरोत्यादेवेषु पृष्ठते लक्ष्म गुर्व इति मन्यते कनीयः कृणुते स्वम् यदस्याः कस्मैश्चिद्भोगा देवालान् कश्चित् प्रकर्तति तडः किशोराव्रीयम् देवत्सांश्च घातुको वृकाः यदस्या गोपतौ सत्या मन्वाङ्ो अधी ततः कुमाराम् म्रियन्ते लक्ष्मो विन्दद्यनामनात् यदस्याः पल्पूलनम् जगद्भासी समस्यति ततोपरूपम् जायते तस्मादव्येष्य तेन सह जायमानाभिजायते देवान् स ब्राह्मणाम् तस्मात् ब्रह्मभ्यो दे जैषादः भस्मस्य ययेनाम् अनिवार्यम् जिरेनाम् देवकृतावशा ब्रह्मज्ञेयम् तदब्रवर्जेनाम् निजायते यालेभ्यो दे यातर्भ्यो देवानाम् दे दे प्रान्सति आस देवेषु पृष्ठते ब्राह्मणानाम् च मन्यते यो अस्य स्यात्माजा भोगो अन्यामिच्छेत तर्हितः हिंस्ते अदत्रा पुरुषम् याचिताम् च न दित्सति यशामणानाम् तथा भा तावेतदक्षायम् निरस्मिन्कस्मिंश्च जायते स्वमेतदक्षायम् निरर्भशाम् ब्राह्मणा अभि यधीरानन्यस्मिन् निजादेवास्याधरम् क्षये देवात्रैर्जनादविज्ञातदा सती भयाम् च विद्यान्ना ब्राह्मणास्तर्येष्याः ये रामवशामाः देवानाम् निहितन्निधिम् उभूतस्मै भवनिक्रम्येषो मस्यतः यो हस्याबोधो न वेदातोः उभयेः नैवास्मै दुःखे दातुम् चेदश गद्वशा दुरभ्रैरामारण याचिकाम् च न दित्सरति का मास्मै कामा समर्थ्यम् ते यामदद्वाचिकीर्षये देवावशामयाचम्मुखम् कृत्वा ब्राह्मणम् तेषाम् सर्वेषामदेरन्येति हेडम् वशूनान्येति ब्राह्मणेभ्यो देवानाम् निहितम् भागम् मत्यश्चेन्निप्रियायते यदन्ये सदम् याजे युर्ब्राह्मणा गोपादिम् वसा अदैनाम् देवाब्रवन्देवम् ह्य विदुषो मया यदेवम् विदुषे दत्त्वान्येभ्यो दद्वशा दुर्गा तस्माधिष्ठाने पृथिवी सह देवता देवा वशाम याचन्यस्मिन्नग्रे अजाराय तामेताम्यन्यान्नार तस्वह देवे अनपत्यमल्पशुम्वशाधिपोरोषम् ब्राह्मणैश्च अग्निशो महाभ्याम् खामाहाय विष्टाय वरुणाय च तेभ्यो याचन्द्रब्राह्णास्तेष्वापश्च यावदस्या ते ते गोपाद्यम् नोपशुजा स्वयम् शेदस्य श्रुत्वाग्रे वधेत् गो अस्याविच उपश्रुत्या च गोष्पाधीचरत् आयुश्च तस्य भूतिम् च देवाविश्वम् दिहीरिताः वशाजनम् देवबुधा देवानाम् निहितो निः आविष्णेणश्वरूपाणि यदा स्थाम जिघांसति आविरात्मानम् कृणुते यदा स्थाम जिघांसति कृणुते मनाः कल्पयर्देवाम् अपि गच्छति ततोः ब्रह्माणोः वशायम् याचीतम् स्वसाकारेण पितृभ्योः यज्ञेन देवताभ्यः दाने न जन्योः वशायाः मातुर्हेणम् न गच्छति वशा माताराः जन्यस्य तथा सम्भो तस्या आहुरगणम् यद्ब्रह्मभ्यः प्रदीयते यथाज्यम् प्रगृहीतमालुम् सृजो अग्ने देवाह ब्रह्मभ्यो वशामग्नरे आवृष्ट्य चेत् तत् पुरोणाश वत्सा सुदुःखाः लोके स्म उपतिष्ठति सास्मि सर्वान् कामान् वशा सर्वान् कामान्यमराज्ये वश प्रददुषे दुहे असाहुर्नारकम् लोकम् नीरम् धानस्य याचिताचरति क्रुद्ध गोपादये वशा वेहदम् मा मन्ये मानो मृत्यो स्वाशेषु बध्यताम् यो वेहतम् मन्ये मानो माच पचते वशा अप्यस्य पुत्रान् पोत्रांशराचरदे बृहस्पतिः महदेवावतपतिशरन्ति गोषुगौरपि अथो ह गोपातरे वशादुषे विषम् दोहे प्रियम् तासाम् नित्यीम् भीमा मुदा कुरुदनारः ताम् देवामीमाम् सन्तमहे रामसेति रामम् रवीयम् नारदय रामजानाम् वसत कलेव वशानादयरास्त्व मनुष्यजाः तास्त्वा पृच्छामि विद्वाम् सङ्ग्रस्यानास्मी जातब्राह्मणः विलिप्त्या बृहस्पते या च श्रुतवशावशास्मी यातप्राहम् मनो याशंसे ततोत्या नमस्ते हस्तु नारदा दुष्टु विदुषे वशा व्रतवासाहम् भीमद मायावदत्वा परा भवेत् विलिप्तीया वृहस्पतेतोः सूतवशा वशा तस्या नाश्मी याद ब्राह्मणो याशंसे न भूत्या ते विदैव शाघातानि विलिप्ती सूतवशा वशा आप्रयच्छेद्ब्रह्मभ्यः सो नाद्रष्ट प्रजापदौ एतद्वो ब्राह्मणाः विलितिमन्वेदराजितः अशाम् देवावशाम् वर्यवदन्नोः गादै जिताः एताभिर्लग्भिर्भेदम् तस्माद्वै सफलाः अभवत् उदेनाम् भेदो नाददात्मशा विन्देन याचितः तस्मात् तम् देवारसो वृष्ट्यन्नः पुत्र हरे देवशायाः नाजवदन्ति जा वरिरामिणाः इन्द्रस्य मन्यवेः जान्मा वृष्टन्ते अचित्त्यादिम् पराणीय इति रुद्रस्यास्तान्ते हेतिम् परीयन्त्यचित्या यदि हुतान्यहूताममाच पचते वसा देवान् स ब्राह्मणान् दत्वा सिंहो लोकान् निरच्छति श्रमेण तपरसा सृष्टा ब्रह्माणा वित्तर्ते श्रिता सत्येनावृता श्रिया प्रावृताय च सा परीहवृता स्वधया परी श्रद्धया परियो दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको यम् ब्रह्म प्रथपायम् ब्राह्मणोऽधीपतिः हारस्य ब्रह्मगवीम् जीरतो ब्राह्मणम् क्षत्रियस्य अपग्रामदेवर्याम् पुण्या लक्ष्मीः ओजश्च तेजश्च सहश्च बलम् चमाख्येन्द्रियम् च शीश्च धर्मश्च ब्रह्म चक्षत्रम् च राष्ट्रम् च च आयुश्च रूपम् च नाम च कीर्तिश्च प्राणश्च पादश्च चक्षश्च शोत्रम् च पयश्चान्नम् चान्नाद्यम् छत्रम् च सत्यम् चेष्टम् च पोर्तम् च प्रजा च पशवश्च आदि सर्वाण्यपक्रामम् दिग्ब्रह्मकविमाददारश्चिरतो ब्राह्मणम् क्षियस्य सैषा भीमा ब्रह्मगव्या नवैषा साक्षात् वृत्या कोर्मजमावृता सर्वाण्यस्याम् घोराणि सर्वे च मृत्यवः सर्वाण्यस्याम् घोराणि सर्वे पुरुषवधाः सा ब्रह्मद्यम् देवबीजम् ब्रह्मगव्याः बीजमानावृत्याः पड्विम् शाद्य मेदिशः सकिता ब्रह्म भग्यस्य क्षिनिर्हिता कस्माद्मये ब्राह्मणानान्दौर्धुराधर्शा विजानता पच्रोधावन्ति हेतिः सफानुिरन्ति महादेवो ओपेक्षमाणा क्षुरव विवेक्षमाणा भाष्यमानाभिस्फोर्जरे प्रत्यर्हि निर्वन्वत्यो देवः पुच्छम् पर्यस्य दे, सर्वज्ञानिः कर्णो वयेवयम् देवाजलक्ष्मो दे, मेषु दुर्यमानाशीलशक्तिर्दुग्धा श्रेरोपदिष्टम् देविको योधः पराहमृष्टा सव्यामुखे मन्यवा ीडादिपदम् निरमादिमदिरा अनुगच्छन्दि प्राणानुपादासयति ब्रह्मगवीर्लम् मद्यस्य वैरम् विकृत्यमानापौत्राद्यम् विभाज्यमाना देवहेतरधीयमानाव्यधिधीयमानापार्श्वमधीयमाना बिषम् प्रयस्य देव तग् प्रयस्ता अगम् गच्छमाभ्यम् भक्वा मोलवर्हेव क्रियमाणा क्षितिः पर्याय असञ्ज्ञाचन्धेन शुगद्विजमाहा नाशीर्यमुद्धृता अभूदेव क्रियमाहाणा परा भूदेव क्रुद्ध पिष्यमाः नाशि मे दापिषिरा आवर्तिरस्य माहारशिला रशिरालोकान्शे रत्य ब्रह्मगवे ब्रह्मज्यमस्माच्चावस्माच्च रस्याहनानम् वृत्यामे निराशसनम् वलगतो बध्जम् अश्वगधापरिर्वदा अग्निश्रव्यात् भोत्वा ब्रह्मगवे ब्रह्मज्जम् भविष्यात् सर्वास्याङ्गापर्वा मूलानिश्चति चिरत्यस्य निर्बन्धु भावयति मातृबन्धु विवाहाङ्गाते सर्वान् भिक्षापयति ब्रह्म कवे ब्रह्मज्जस्य क्षत्रियेणा नोदीयाहारा <laughs> भवास्त्वमेन गमप्रायसङ्गरोत्यपरायणो भवति क्षीयते य एवम् विदुषो ब्राह्मणस्य क्षत्रिजोगामादत्ते क्षिप्रम् वेतस्याहनवेरुद्धा कुर्वतैलवम् क्षिप्रम् एतस्यादहनम् परिनृत्यन्ति केशिनीराघ्राणा पाणिनोरधिकुर्वाणा पामैलवम् क्षिप्रम् वेतस्य वा स्तोशु कृताः क्षिप्रम् वेदस्य पृच्छन् द्वि यत्र ददासीयानुदा दिवि छिन्द्या छिन्दि प्रच्छिन्द्य वेष्ठ आदुरानाङ्गिरति ब्रह्मज्यमुपदावरा वैश्वदेवी ओर्चदे कृत्यागोर्वजमावृदा ओरन्ते सोरन्ते ब्रह्मणो वज्राः श्रृत्युर्भूत्वा विधाः वत्मान् आम् वच्च इष्टम् पूर्तम् चाशिषाः आदाय गीतम् गीताय लोके एवस्मिन् पयच्छति अग्ने ब्राह्मणस्याभिशस्या मे निश्र रव्या भवाघादघेशा भव ग्ने प्रचरो ब्रह्मद्यस्य कृतासो देवया प्रमोर्नमृजिताग्निर्वह चतुष्टिरम् वृष्ट प्रवश्च संवृष्टः प्रदः सन्दयः ब्रह्मज्यम् देव्यज्ञः मूला ननुसन्दः यथायाद्यमसाधनात्मावलोकाम्बरावताः देवात्तम् देव्यज्ञे ब्रह्मज्ञस्य कृतागरसौ देवणातिष्ठेन क्षुदभृष्टिना प्रस्कन्धान्मृोरिः लोमान्यस्य सञ्चिन्भित्वस्य विवेष्ट मांसान्यस्य शातरः स्नान्यस्य संवृह अस्थेण्यस्य पीडयमज्यानयमस्य निर्द्रि सर्वास्याङ्गापर्वा निःश्रथया अग्निरेलङ्गव्या पृथिव्यानोदताोषतु वायुरम् तरिक्षामह यतो वायम् नः सूर्य एनम् दिवः प्रणोददान्योषतो इति द्वादशम् समाप्तम् अथ त्रयोदशम् काण्डम् ओदेहेवादिन्यो आप्सा आन्तरिदम् राष्ट्रम् रहीतो नृता यो नो हीतो विश्वमिदण्डानसत्त्वा राष्ट्राय सुहृतम् विभर्तोऽप्सा आन्तर्विशारो हत्वज्ञो न योजा सोमङ्गथा नोपवोष दीर्घाश्चतुष्पदाद्विवधारेश जूजमुग्रामरुतःनिमातर इन्द्रेण युजाप्रवेणीतशत्रोन् आवो रोहिरश्रणवत्सुतारवस्त्रिषक्तासोः मरुत स्वादुसम्मुदः रोहोरोहरोहितारुरोहगद्भोजनीहीराञ्जनुषामुपस्थम् ताभिः संरब्धमन् वरविन्दम् चेर्गातुम् प्रपश्यन् इह राष्ट्रमाः आदे राष्ट्रमिह रोहितो हार्याः स्थम् वृथा भजन्ते अभूत् तस्मै देव्या वा पृथिवीरे मतेकामम् दुहातामिह चक्वारीः रोहितोद्या वा पृथिवीजानतन्तुम् परमेश्वरीर तत्र धिष्टिरेकपादो द्रुम् भट्याः पृथिवीमलेन रोहितोद्यावः पृथिवी आद्रुम् भक्तेन स्वस्थभितम् तेन लागाः येनान्तरिक्षम् विवीतारजांसितेन देवामृतमन्वृन्दन् विरोहिताम् विश्वरूपम् समाकुर्वाण प्रलभोरुहश्च हिम्नासंते हृताव निम्ना जास्ते राष्ट्रवलक्तपयसा घृतेन यास्तेहप्रयोजास्त आरो याभीरावृणासिमयमन्तरिक्षम् तासाम् ब्रह्मणापयसा वावृधानो मिशिराष्ट्रे जाहीतस्य यास्ते यत्तवत्तभोवर्वत्सङ्गाः यत्विमदुलाभिः तास्त्वावीशन्तुमनसा शिवेन संमाहता वत्सो अभ्ये तुहीनः ओर्द्वोरोहीतो अधिनाकेरस्थाद्विश्वाः रूपाणि जनयन्निवाहकविः दिग्मेणाज्ञर्ज्योतिषाविभागेन चिप्रियाणि शास्त्रङ्गो वृषभो जातवेदाहृताहूतस्तो वृष्टीराः ेद्वाजहारि गोपोषम् च मे वीरपोषम् च देहि रोहि गो यज्ञस्य जनितामुखम् च रोहिताय वाचा श्रोत्रेण मनसादिभोमि रोहितम् देवायम् दिसुमनस्य माहारास्तमारोहये सामित्यैरोहयतु रोहित योग कामणे तस्तेंवागो वो चेयज तेनाबुवस्या मज आरोध मंदिर आरोप आरोप अयम् वस्ते गर्भम् पृथिव्यादिवम् वस्तेरमन्तरिक्षम् अयम् अग्नस्य विष्टविश्वलोकान्यादधे वाचस्पदे पृथिवीरस्योनास्योनायो नष्टल्पा न स्तुसेवा येन प्राणः सख्येनो परमेष्ठिन्परे अग्निरायुषावर्त्र सा दधातु पाचस्पदहितमः पञ्चजेनो वैश्वकर्मणा परिजयसम् बभोवो इहैव प्राणसख्येनो अस्तु तन्ता परमे चिन्परिलोहितायुषावच्च सादधातु पाचस्पदेशौ मनसम् मनश्च गोष्ठेनो गादनरे जोमेढप्रजाः इहेव प्राणसख्येनो अस्तु तन्ता परमे चिन्पर्यहमायुषावच्च सा देवो अग्निर्वच्च साभिन्नाष्ट्रतावत् यन्त्वा बृहदीरथेष्टिर्वहदिरोहिता शुभायाः शिणयः अनुवृतारोहिणी रोहितस्य सूर्यः सुवर्णाः बृहदि सुभ्राः तया वाजान् विश्वरोपाञ्जय मदया विश्वाः पृतराविश्वा वा इदम् तदो रोहिणी रोहिरस्या सोगन्था पृषतीरे न याति ताङ्गम् गर्वा कस्य पावुन्नयन्ति ताम् रक्षन्ति कमया प्रमादन् सूर्यस्याश्वारयः के तुमन्तः सन्ति सुहं ृतपामारोहितो भ्राजयमानो दिवम् देवप्रषदीमामीवेश यो रोहितो वृषभस्तिग्मसिङ्गः पर्यज्ञम् परिशोर्यम् भूव यो विष्टभ्रादिपृथिवीम् यवञ्च तस्माद्देवादिदृष्टिः सृजन्ते रोहीतो दिवमारोहन् महतः पर्यन्त सर्वाः रोहरोहीतो लोहाः वयस्पतीम् घृता देवानाम् धेरलस्प्रजेधान्द्रोमम् विभतु क्षेमोऽस्त्वग्निप्रस्तौविबुधो नृधस्व समिद्धो अग्निः स विधानो घृतविद्धो घृताहूदः स्वपत्नान् प्रदहत्व प्रधन्यते क्रव्यादाज्ञ्याः वयम् सपत्नान्त अवाजीरानवजयीन्द्रमान् अधाः सपत्नाहन्मा मगानग्ने स्तेजोभिरादीः अग्ने सपत्नानधरान्तादयास्मद्य स जातवत्पिपाहानम् बृहस्पते इन्द्राः ज्ञेमित्रा वरुणावधारे पद्यन्तामप्रतिमम् योजमानाः उद्यां स्तन्देहे वसौर्यधवत्नानवमेजि अवैनानस्मरनाजहिते यन्त्यथमन्तवाः वत्सो विराजो वृषभो दीराहचक्रपृष्ठोम् तरिक्षम् जलेणार्कमभ्यन्ति वत्सम् दिवञ्चरोहेहराष्ट्रञ्चरोहद्रवीरञ्चरोह व्रजाञ्चरोहा मृदञ्चरोहरोहितेन तन्दाम् संस्कृतस्मा देवष्ट्रमृतोहितोऽयन्ति सूर्यम् तैष्टेरोहितस्संविदो राष्ट्रम् व्यधातुमनस्य मानः यज्ञा ब्रह्मपूर्णवहन्यद्धगतो हरा यस्ता वहन्ति यः समुद्रमतीरो देत्या वा पृथिवी अधिश्रुते वा सुजिति गोचिति सन्धनादिति सहस्रम् यस्य वादिसप्त च गोचेयम् तेनाभिम्भवानस्याधिमज्मनि प्रयजो निषष्टयशात्मशोनामुतदर्शनीना निरा पृथिव्या अदित्या उपस्थे शम्भो याशंसविदेव चारोः ममुद्रसन्निषदेऽेदस् संस्तानि पश्यसि गिरः पश्यन्ति नो जनम् दिविधोर्यम् दिरेवो देवान्मर्जयस्यन्तश्च रस्य न वे पवः परेण बलेनावरेण पदावत्सम् बिभ्रति गौरुदस्थात् सागद्री एवम् आत्मस्मिन् सूर्यते अस्मिन् एकपदी द्विपदी स चतुः सद्यष्टापदीनवदी बहुविषी सहस्राच्चराभुवर्णस्य पङ्क्तिस्तस्याः समुद्राधिविक्षारन्ति आरोहन्मृतः प्रालमेव चाः यज्ञाः ब्रह्म भूता वहन्त्यर्धागतो हरयस्तावहन्ति वेदयत्ते अवर्त्यजत्र आक्रमणम् दिवि यज्ञे सदस्थम् अरहे व्यो हो मन् सूर्योद्याम् सूर्यः पृथिवीम् सूर्या भोधी पश्यति सूर्योः भूतस्यैकम् चक्षुरारोरोहयदिवम् महे उर्वेराधयो वेदिर्भूमिरकल्पता तत्र एतावग्नी आधत्त हिमाङ्घ्रम् सञ्चाधाय योपाहम् कृत्वा पर्वता वर्षाज्याः वग्नी जाते रोहितस्य सर्विदाः स्वर्विदो रोहितस्य ब्रह्मणाग्निः समिन्दते तस्माद् गृहं रतस्तस्माद्धिमस्तस्माद् यज्ञो जाजत ब्रह्मणाग्निवाधानौ ब्रह्म वृद्धौ ब्रह्माहुतौ ब्रह्मेर्धावग्नी यादरोहितस्य स्पर्विदाः सत्ये अन्यः समाहितो स्वाम् न समिध्यते ब्रह्मेर्धावग्नी यादरोहितस्य स्पर्विदाः जम्बातः परिशम्भाजम्बेन्द्रो ब्रह्मनस्पतिः ब्रह्मे धावग्नीयाते रोहीतस्य स्तविराः वेदिम् भूमिम् कल्पयित्वा दिवम् कृत्वा दक्षीणा घंसम् तदग्निम् कृत्वा चकारविश्वरमात्मम् मत्परिधेणाज्ञोहीतः वर्षमार्ग्यम् तत्रेतान् पर्वतानग्निर्गेर्भिरोद्धान् स्वकल्पयतभिरोद्धान् कल्पयित्वा रोहितो भूमिव ब्रवीर त्वचेदम् सर्वम् जायताञ्जद्भूतम् यच्च भाव्यम् सः प्रथमो भूतो भवयत तस्माद्ध यज्ञ इदम् सर्वम् यत्किञ्च विरोचते रोहिते यश्च गाम् पदा स्फुरतिम् प्रत्यम् शौर्यम् च मेहति तस्य निश्चामिते मूलम् नक्षायाम् गरोपरम् यो महाभिच्छाय वर्त्यमाञ्चाग्निम् चान्तरा तस्य निश्चामिते मूलम् नक्षायाम् गर्वपरम् यो अज्ञदे सौर्यत्माञ्च माञ्चान्तरायति ष्वाभ्यम् नस्मिन् चलम्हे मासो वयम् मा यज्ञालिन्द्रोमिनाः पान्तस्त्वर्नादः यो यज्ञस्य प्रसाधरस्तम् तु देवेष्पातदत्तमाहोदमजीवनिः उदस्य केतवोः दिमिशुक्राभ्राजम् ददीरदे आदित्यस्य चक्षसो महिव्रतस्य ज्ञाम् पदयम् तवर्जिता सुवक्षमासम् पदयम् तवर्णवे सवार्यम् भुवनस्य गोपाल्यो रश्मिर्दिश आभाषि सर्वाः यत्त्वायासि दत्ते महि श्रो यदे को विश्वम् परिभूनजायते ितम् हरणिम् राजवालम् वहन्ति हरितः सप्तवर्णेः स्तुताद्यमत्तिर्दिवन् विना रणन्तः पश्यन्ति परिजान्तमाजिम् मात्मा लभम् परिजान्तमाजिम् सत्यदुर्गादेजाहिशीभवम् दिरम् चौर्य पृथिवीम् च देवी महोरात्रे मालोय देहि स्वस्थिते सौर्यहरते रथा रजेनोभामन्दम् तु परिजासी सद्यः यन्ते वहन्ति हरितोऽवहिष्टाश्रदमश्वायदेवा सप्तभग्भीः सुखम् सौर्यरथमंशुमन्त्रम् श्रवनम् वन्दिमधिष्ठवादिनम् यन्ते वहन्ति हरितोवहिष्टाश्रदमश्वायदेवा सप्तभग्नेः सप्तसूर्यो हरितो यात वेरथेण्यत्वजो बृहदीरयुक्ता अमो शुक्रोरज परस्ताः दिरोय देवस्तमो दिवमारोहत उत्केतुनाः बृहदा देवा जनवाः वृत्तमोऽभिज्योतीरः शरीर दिव्यस्वर्णः शरीरो व्यख्यदीरमुद्राभुवर्णानि विश्वाः उद्यन्नश्मीणाः रूपाणि पुष्यति उपासमुदौ क्रतो नाविभासि सर्वान् लोकान् परिभूत् राजमानः पूर्वापरञ्च रतो क्रीडन्तु हरीयातोर्नवम् विश्वान्यो भुवना विचष्टे हैरण्यैरण्यम् हरितो वहन्ति विहित्वादर्तवन् विश्वाः भूता बुभावन्तौ समर्षसि वत्सः सम्मातराः एतदितः पुरा ब्रह्म देव अमीरेतुः यत्स मन्द्रमनुसृतम् दत्सीशासति सौर्याः अर्वाः सेविदतो महान् पूर्वश्चापरश्च यः संमाःप्नोति ज्योतिभिस्ततो नापचिकित्सति तेनामृतश्च भक्षम् देवानाम् नावरुन्धते दे। उदृत्यम् जातवेदसम् देवम् वर्हन्ति केतवाः गृहे विश्वाय सूर्यम् आपत्ते रायवो यथा नक्षत्रायम् चक्षुभिः चूराय विश्वचक्षते अदृष्टम् नस्य घेतवोऽश्वलोचनात्मनो भाजन्तो अग्निदर्शरोज्यो दृष्टदर्शतो विश्वसिलोचना प्रत्यङ्गेवानाम् इषः प्रत्यङ्गुरे मानोषीः प्रत्यङ्गम् सदृशे ये पावकचक्षयसा भुरण्यन्तम् जनात् अनु ृण पश्यति विद्यामे शीरस्मृत्वाग्निमहानो वक्तुभिः पश्यन् जन्माहारिसूर्य सप्तत्वा हरितोरदेवहन्तिदेवसूर्योचिष्णे संविचक्षणम् अयुक्तसप्तशुन्ध्युवः सूरो रहस्य नत्याः राभेयादि स्वयुक्तिभिः रोहितोऽदिवहक्तपरसादपस्वी यो नियते पुनस्तदेवानाधीपनिर्बभूवः यो विश्वचर्षणि ऋत विश्वतोमुखो यो विश्वतःपाणि ऋत विश्वतः स्पृथः सम्बाहभ्याम्भरतिसम्बरत्रेद्यावाः पृथिवीरयम् देवरेखाः रेकर्पाद्युपतो भूयो विचक्रवेद्यपादृपाहदमभ्येदि पश्चात् अदम्रोजास्तोस्तात्पेणुते रोचमान के सहारो रहां विश्वादिप्रमद बन्महा मण्हाबादी महा महांस्तेः महतोमहिमात्तमाहादित्यमहाम् अधि रोचते दिवि रोचते अन्तरिक्षे पतङ्गमसिञ्जाम् रोचसे लोचसे अप्स्वाहन्तः उवासमुन्द्रोरुच्चव्यामिष देवो देवासिमहिषः सज्जि अर्वाङ्मरस्तात्रजतोशर्मी पश्चित्पदयम् पतङ्गः विष्णुर्विचित्त श्वसाधिजम् केतुराः सहते चित्रश्चे गत्वार्णाः रोदनम् रोदीयन्तरिक्षम् अहोरात्रे परितोर्यम् वसानेऽप्रास्य विश्वाहादिरतो वीर्याणि तिग्मो विभ्राजम् तन्वांशिजाहानोरङ्गे वासप्रवतो रहारः ज्योतिष्मान्पक्षे वा हिरोव जोधा विश्वास्ताद्वदिषः कल्पमाणः चित्रम् देवानाम् केतुरनेकम् ज्योतिष्मान् प्रतिशस्तौर्यबुद्ध्यन् दिवा करोति धुम्नेस्तमाम् सुविश्वादानेतानि शुक्रः चित्रम् देवानामुदगादनेकम् चक्षुर्मित्रस्य वरुढस्याग्नेः त्यावाह पृथिवी अन्तरिक्षम् सूर्य आत्मा जगतस्तस्थुषश्च वरुणम् सोपर्णम् मध्ये भ्राजयमानम् श्यावत्त्वादपितारय्य बाहुरजः सञ्ज्योतिर्यदविन्दतेः दिवः पृष्ठे भावयमानम् सुपर्णमदित्या पुत्रम् नादगाः उपया विभेदः क्षणस्रोर्य प्रदीर दीर्घमायुर्मारीराव्याम शास्त्राण्यम् यदावस्य भक्तो हरे हरसस्य पदतस्वर्गम् स देवान् सर्वानुरस्य सम्पश्यम् याति रोहितः काल अभवद्रोहितोऽग्रे प्रजापदे रोहितो यज्ञानाम् मुखम् रोहितः स्वाराभरत् रोहितो लोकाभ्रोहितो रोहितो रश्म्यभिर्भूमिम् समुन्द्रमनुसञ्चरत् सर्वादिह समाज द्रोहितो दीपनिर्दिवः दिवम् समुन्द्रमात् भूमिम् सर्वम् भूतम् विरक्षति आरोहम् शुक्रोगृहेन मन्दोद्य ्रष्टिघित्वान्महिटो मादयमाया लोकानभियद्विभाति अभ्यामान्यपर्यदस्य दे देहोरात्राभ्याम् महि कल्पयमाणः सूर्यम् अजम् रजर शिक्षयन्तम् गातुमिदम् हवामहेनाथयमानाः पृथिवी प्रोम हिषो नाथयमाश्च गातुरब्धचक्षः परि विश्वम् प्रभू विश्वम् सम्पश्यन् सुमिदत्रो यजत्र इदम् श्रेणोदयधर्मी पर्यस्य महिमा पृथिवीम् सर्वमन्त्रम् ज्योतिषाभिभ्राजम् परिद्यामन्तरिक्षन् सर्वम् सम्पश्यन् सुमिदत्रो यजत्र अवाद सजना प्रतिधेनुमें भाजते मुषाधम युजिहा प्रभाग्चा